अथ त्रिंशः सर्गः सान्त्यमाना तु रामेण मैथिलीजनकात्मजा वनवासनिमित्तार्थम् भर्तारमिदमब्रवीत् सा तमुत्तमसंविज्ञा सीता विपुलवक्षसम् प्रणयाच्चाभिमानाच्च परिचिक्षे पराघवम् किम् त्वामन्यत वै देहः मिथिलाधिपः राम जामातरम् प्राप्य स्त्रियम् पुरुषविग्रहम् अनृतम्बत लोकोऽयमज्ञानाद्यदि वक्ष्यति तेजो नास्ति परम् रामे तपतीव दिवाकरे किम् हि कृत्वा विषण्णस्त्वम् कुतो वा भयमस्ति ते यत्परित्यक्तु कामस्त्वम् मामनन्यपरायणा युमत्सेन सुतम् वीरम् सत्यमन्तमनुव्रता सावित्रीमिव माम् विद्धि त्वमात्मवशवर्तिनीम् न त्वहम् मनसा त्वन्यम् द्रष्टास्मि त्वदृतेनघा त्वया राघवगच्छेयम् यथा न्याकुलपाम् सनी स्वयम् तु भार्याम् कौमारीम् चिरमध्युषिताम् सती शैलोष इव माम् रामपरेभ्यो यस्य पथ्यम् च रामार्थ यस्य त्वम् तस्य भव वश्यश्च विधेयश्च सदा नघा समामनादायवनम् न त्वम् प्रस्थितुमर्हसि तपो वा यदि वारण्यम् स्वर्गो वा स्यात्त्वया सह न च मे भविता तत्र कश्चित्पथिपरिश्रमः पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव कुशकाशशरेषीका च कण्टकिनो तूला जनसमस्पर्शा मार्गे मम सह त्वया महाभातसमुद्भूतम् यन्मामवकरिष्यति रजो रमण तन्मन्ये परार्घ्यमिव चन्दनम् शाद्वलेषु यदाशिष्ये वनान्तर्वनगोचरा कुथास्तरणयुक्तेषु किम् स्यात् सुखतरम् ततः पत्रं मूलं फलम् यत्त्व अल्पम् वा यदि दास्यसे स्वयमाहृत्य तन्मे मृतरसोपमम् न मातुर्नपि तुस्तत्र स्मरिष्यामि न वेश्मनः आर्तवान्यपभुञ्जाना पुष्पाणि च फलानि च न च तत्र ततः किञ्चिद् द्रष्टुमर्हसि मत्कृते न शोको नभविष्यामि दुर्भरा यस्त्वया सह सस्वर्गो निरयो यस्त्वया विना इति जानन् पराम् प्रीतिम् गच्छ राम सह अथ मामेवमव्यग्राम् वनम् नैव वन नयिष्यसे विषमद्यैव पास्यामि मा वशन्द्विषताम् गमम् पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् उज्झितायास्त्वया नाथ तदैव मरणम् वरम् इमम् हि सहितुम् शोकम् मुहूर्तमपि नोत्सहे किम् पुनर्दश वर्षाणि त्रीणि चैकम् इति सा शोकसन्तप्ता विलप्य करुणम् बहु चुक्रोशपति मायस्ता भुजमालिङ्ग्यसस्वरम् सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गला चिरसन्नियतम् बाष्पम् मुमोचाग्निवारणिः तस्या स्फटिकसङ्काशम् वारिसन्तापसम्भवम् नेत्राभ्याम् परिशुश्रावपङ्कजाभ्यामि तत्सितामलचन्द्राभम् मुखमायतलोचनम् पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम् ताम् परिष्वज्य बाहुभ्याम् सञ्ज्ञामिव दुःखिताम् उवाचवचनम् रामः परिविश्वासयंस्तदा न देविपदुःखेन स्वर्गमप्यभिरोचये न हि मेऽस्ति भयम् किञ्चित् स्वयम् भोरिव सर्वतः तव सर्वमभिप्रायमविज्ञायशुभानने वासम् न रोचयेरण्ये शक्तिमानपि रक्षणे यत्सृष्टासि मया सार्धम् वनवासाय मैथिली न विहातुम् मया शक्या प्रीतिरात्मवता यथा धर्मस्तु गजनासोरुसद्भिराचरितः पुरा तम् सूर्यम् सुवर्चला न खल्वहम् न जनकनन्दिनी वचनम् तन्नयतिमाम् पितुः सत्योपबृंहितम् एष धर्मश्च शुश्रोणि पितुर्मातुश्च पश्यता आज्ञाम् चाहम् व्यतिक्रम्य नाहम् जीवितुमुत्सहे अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् यत्र त्रयम् त्रयो लोकाः पवित्रम् न्यदस्तिशापांगे तेनेदमराध्यते न सनौ वज्ञो वाप्यादक्षिण वा तथा बलकर सीते यहानम्य विद्यापुत्र सुखा चुत्धेन न किंचिदी दुर्लभम देगंधोका्रह्म लोकां तथा प्राप्नुवन्ति महात्मानो मातापितृपरायणाः समापिता यथाशास्ति सत्यधर्मपथे स्थितः तथा वर्तितुमिच्छामि स हि धर्मः सनातनः मम सन्नामतिः सीते नेतुम् त्वाम् दण्डकामनम् वसिष्यामीति सा त्वम् अनुगच्छस्व माम् भीरुसह धर्मचरीभव सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च व्यवसायमनुक्रान्ता क्रान्ते त्वमतिशोभनम् आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः नेदानीम् त्वदृते सीते स्वर्गोऽपि ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् देहि चाशंसमानेभ्यः सन्त्वरस्वचमाचिरम् भूषणानि महार्हाणि वरवस्त्राणि यानि च रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः शयनीयानि देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् अनुकूलम् तु सा भर्तुर्ज्ञात्वा क्षिप्रम् प्रमुदिता देवी दातुमेव प्रचक्रमे ततः प्रहृष्टा प्रतिपूर्ण मानसा यशस्विनी भर्तुरवेक्ष्य भाषितम् धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृताम् मनस्विनी इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिंशः सर्गः